गणेशपुराणम् उपासनाखण्डम् अध्यायं फिफ्टीन् भृगुरुवाच व्यासाय कथया चाग्रे ब्रह्मालोकपितामहः सोमकान्तप्रवक्ष्यामि कथां शृणुदसादरं ब्रह्मोवाच तदोहं सुमहत् स्वप्नं ददर्श मुनिसत्तमा भ्रमदा भ्रमदा व्योमजले दृष्टो वडो महान् महावातास्तपाद्भिस्तु नष्टेस्तावरजङ्गमे अवशिष्ठ कथमयमेक एव वडो महान् एवं संशयमापन्नस्तत्पत्रे बालकं लघुं चतुर्बाहुं समुकुडं कुण्डलाभ्यां विराजितं मणिमुक्तमयं दाम बिभ्रत्कण्ठे सुशोभितम् अर्धचन्द्ररक्तवस्त्रं कडिसूत्रं तथैव एकदन्तं नखपुर्गजास्यं त्यजसाज्वलद दृष्ट्वैवं तर्कयामास बालकं कथमत्र वै पुष्करेण च तद्बालं जलं mm -hmm. मन्मस्तकेक्षिपद ततोहमाजहासोच्चैश्चिन्तानन्दसमन्वितः मय्या हसदि बालः स उत्ततारवडात्तदः सममाङ्गं समागत्य मञ्जुवाक्यं जहादः बाल उवाच लखोर्लकुतरोऽसि त्वं वृथा वृद्धोऽपि मूढधीः विघ्नैरभिहदोऽसि त्वं सृष्टिचिन्तासमावृदः तपश्चिन्तापरो नित्यं बिभ्रमं जलमध्यगः सर्वं चिन्ताकरं ते समुपायं चतुरान उपादिशामि ते मन्द्रमेकाक्षरमिमं मम पुरश्चरणमार्गेण दशलक्षं जपस्वतम् तदः प्रत्यक्ष दां यास्ये दास्ये सामर्थ्यमुत्तमं दृष्ट्वैवं स्वप्नमाश्चर्यं प्रतिबुद्धो भवं ह्यसं शुशोचकदामे स्याद्दर्शनं परमेशिदुः दृष्टस्वप्नो भवं मग्न तदस्नात्वा परं जजाप बहुवासरम् एकपादेन कमले तिष्ठन् ध्यायन् गजाननम् जिदेन्द्रियो जिदाहारः काष्ठपाषाणवस्थिरः दिव्यवर्षसहस्रं स तपस्तेपे परं तद मे मुखदोज्वालादुरासन् दुरासदा तवाणी भूता पीड़ा मपुसुदारुण तद गजाननों दृष्ट्वा तं निषा मम सुदृढ़ा तो क्रिया प्रादुरासी तत पुरा कोडिसूर्यसमानश्रीर्ज्वालामालीव हव्यभुक दहन्निवत्रिलोकीं स संहरन्निवरोदसी परशुकमलधारी दिव्यमायाविभूषः सकलदुरिदहारी सर्वसौन्दर्यकोशः करिवरमुखशोभी भक्तवाञ्छा प्रपोषः सुरमनुजमुनीनां सर्वविघ्नयिकनाशः तेजोराशिमहं दृष्ट्वा चकम्पे व्याससन्मुने चिन्तामवापपरमां व्यग्रचित्तो जपाच्युदः आच्छादितानि क्षणानि स्मृतिश्च विलयं गदा दृष्ट्वे दृश्यमवस्थां तां शीघ्रं प्राह्दविघ्नराट गणेश उवाच न भयं कुरु लोकेश स एवासं समागतः येन मन्त्र आदेशि स्वप्नयेकाक्षरशुभः तेन सिद्धिरनुप्राप्ता वरं दातुं समागतः सौम्यभावप्रपन्नोऽस्मि वरं वरय सुव्रत दास्यामि ते प्रसन्नोऽहं यद्यत्ते हृदि वर्तते मयि प्रसन्ने सर्वं तत् भविता नात्र संशयः मुनिरुवाच युद्धं निशम्यगणनाथवजो विशुद्धं ब्रह्मा जहर्ष परमप्रसमीक्षमाणः नत्वाचराचरगुरुं सकल् है शिरो विप्राहप्रसन्नहृदयः सफलं जनुर्मे ब्रह्मोवाच यो वेदानां स शास्त्राणां ज्ञानिनां योगिनामपि सर्वोपनिषदां चैव गोचरो न कदाचन स पुण्यनिचयैर्मेद्ययाधप्रत्यक्षतां विभुः अनादिनिधनो नन्दो प्रमेयो निर्गुणोऽपि च यदि प्रसन्नो देवेष्य विघ्नेश करुणाकर तव भक्तिं दृढां देहि यया दुःखनः स्पृशेद इदानीं देहि सामर्थ्यं नानानिर्माणने मम विघ्नानि च शमं यान्तु यदि तुष्टोऽसि मे प्रभो स्मृतमात्रः सदा मे सर्वं कार्यं समापय अन्ते मुक्तिं स्थिरां देहि ज्ञानं च विमलं मम गजानन उवाच एवमस्तु गुरुष्वत्वं सृष्टिं नानाविधां बहुं मां स्मृत्वा सर्वविघ्नानिनाशं यास्यन्ति सर्वतः दृढा भक्तिशुभं ज्ञानं मत्प्रसादाद्भविष्यति निःसङ्गं कुरुकार्याणि सर्वाणि चतुरान मुनिरुवाच एवं लब्धवरो ब्रह्मा पूजयामासतं विभुं यद्यचिदे चिन्तयत्स तत्तदेवोपतिष्ठते पूजा देवदेव से गणेश प्रसाद दक्षिणवसरे दुकस्थिते चारु प्रसन्नयन वदन सुविराजते अनेकत्नखचितनालंकारशोभित दिव्यगंधयु दिव्यवस्त्र विभूषे ते तस्मै दक्षिणार्थं स कल्पयामास पद्मभूः रम्भागर्भेण नीराज्यं दिव्यपुष्पाञ्जलिं ददौ सहस्रनामभिस्तुत्वा प्रदक्षिणमधाकरोत् नमस्य प्रार्थयामास दीनानां शङ्करो भव एवं सम्पूजितस्तेन ब्रह्मणा परमेष्टिना तदप्रसन्नो भगवान् विघ्नहर्ता गजाननः सिद्धिबुद्धि गृहीत्वा ते अन्तर्धा नमगाद्विभुः कस्तधकरयामास करयामास सृष्टिं पूर्ववदायताम् आज्ञया परमेशस्य प्रसादाच्च प्रसन्नधीः इति श्रीगणेशपुराणे गजानन पूजा निरूपणं नाम पञ्चदशोऽध्यायः ओम्